<Sessantanthas>, हरि ओम् श्री सीतारामचन्द्राभ्य नमः अथ श्री अध्यात्म रामायणे किष्किन्धाकाण्डे षष्ठ सर्गः श्रीमहादेव उवाच दृष्ट्वा रामम् समासेन गुहाद्वारि शिलातुले चैलाजीनदरं श्यामम् जटामौली विराजितम् विशालनयनं शान्तम् स्मितचारु मुखाम्बुजम् सीता विरहसन्तप्तम् पश्यन्तं मृगपक्षिणः रसा दूरार्थमुत्पत्य वैगा सुग्रीवलक्ष्मणौ रामस्य पादयोरग्रे प्रेततोर्भक्तिसंयुतौ राम सुग्रीवमालिङ्ग्य पृष्ट्वा नामयन्मन्तिके स्थापयित्वा यथा न्यायम् पूजयामः स ततो ब्रवी रघुश्रेष्ठं सुग्रीवो भक्ति नम्रधि देव वानराणां महाचमं कुलाचलाद्रिः सम्भूता मेरु मन्दरसन्निभ नानाद्वीपसरि चैल वासिनः पर्वतोपमः असङ्ख्यातः समायान्ति हरे कामरूपिण हे सर्वे देवाञ्च सम्भूताः सर्वे युद्ध विशारदः अत्र केचिद् गजबलाः केचिदश गजोपमः गजायुत बला केचित् अन्ये मि अमितबलाप्रभ केचिदञ्जनकूटाभा केचित् कनकसन्निभ केचिद् रक्तान्तवदन दीर्घबालास्तथा परे शुद्ध स्फटिकसङ्काशात् केचित् द्राक्षसन्निभा गर्जन्तः परितोयन्ति वानरा युद्धकाङ्क्षिणः तद्धाज्ञाकारिणः सर्वे फलमूलाशना प्रभ वृक्षाणामधिपो वीरो जाम्बवान् नाम बुद्धिवान् बुद्धिमान् एष मे श्रेष्ठ कोटि भल्लुक हनुमाने च विख्यातो महासत्व पराक्रमः वायुपुत्रोऽस्ति तेजस्वी मन्त्री बुद्धिमताम्बरः नलो नीलश्च गवयो गवाक्षो गन्धमादनः शरभ मन् मैन्दवैश्चैव गज पनस एव बलिमुखो दधिमुख सुषीण सारैव केसरी महासत्व पिता नो एतेते बली एते ते यूथ पाराम प्राधान्येन मयोदितः चक्रतुल्य पराक्रमः एते प्रत्येककोटि कोटि वानरयूथपाः तवाज्ञाकारेण सर्वे सर्वे देवांशसम्भवाः एषे वाली सुत श्रीमान् अङ्गरो नाम विश्रुतः वाली बलो वीरो राक्षसानां बलान्तकः एते चान्ये च भव चक्त चक्तजीवितः युद्धारे पर्वताग्रहे च निपुणा शत्रुघातने अज्ञापय रघुश्रेष्ठ सर्वेते ते वशवर्तिनः रामः सुग्रीवमालिङ्ग्य हस्य पूर्णाश्रुलोचन प्रह सुग्रीव जानासि सर्वं तं कार्य गौरवम् मार्गणार्थम् हि जानक्या यदि रोचते श्रुत्वा रामस्य वचनम् सुग्रीव प्रीतमानसः प्रेषया मास बलिनो वानरान् दिक्षु सर्वासु प्रेषसत्वरम् दक्षिणाम् दिशमत्यर्थम् प्रयत्नेन महा बलान् युवराजम् जाम्बवन्तम् हन्तम् महाबलम् नलम् सुषेणम् शरभम् मन्दम् द्विधमेव च प्रेषयामास सुग्रीवो वचनं चेदमब्रवीत् विचिन्वन्तु प्रयत्नेन भवन्तो जानकीं शुभाम् मासादर्वाङ् निवर्तव्यम् मच्छास न पुरस्सर सीतां दृष्ट्वा यदि वो मासादुर्धम् दिनम् भवेत् तदा प्राणान्तिकम् दण्डम् मत् प्राप्स्यथ इति प्रस्थाप्य वानरान् भीमविक्रमान् रामस्य पार्श्वे श्रीरामम् नत्वा चोपविवेशसः गच्छन्तम् मारुतिम् दृष्ट्वा रामो वचनमब्रवीत् अभिज्ञाना समेतन्मे ह्यङ्गुलीयकमनुत्तमम् मन्नामाक्षरसंयुक्तम् सीता ये दीयताम्र अस्मिन् कार्ये प्रमाणम् हि त्वमेव कपि सत्तम् जानामि सत्यम् ते सर्वम् गच्छ पन्थाः शुभ एवं कपि नाम्राज्ञाते विसृष्टा परिमार्गणे सीतायाङ्गदमुखा बभ्रमु तत्र तत्र भ्रमन्तो विन्ध्यगहने ददृशु पर्वतोपमं राक्षसम् भीषणाकारम् भक्षयन्तं मृगाङ्गजान् रावणोयम् इति ज्ञात्वा केश्चिद्वानरपुङ्गवः जघ्नु किले किल शब्दम् मुञ्चन्तो मुष्टिभीक्षणात् न यम् रावण इत्युक्त्वा ययोरन्यन् महध्वनम् सुशाता सलिलम् तत्र न विन्दन् हरिपुङ्गवः बिभ्रमन्यो महारण्ये शुष्ककण्ठोष्ठतालुकः ददृशुर्गौभरम् तत्र तृणगुल्मावृतम् रहेत् अर्द्रपक्षान् क्रौचौतान् निःसृतान् अत्रास्ते सलिलम् दूरम् प्रविशामो मगवाम् इत्युक्त्वा हनुमान अग्रे प्रविवेश समन्वयुः सर्वे परस्परम् धृत्वा बाहून् बाहून् विरुत्सका अन्धकारे महद्दूरम् गत्वा पश्यन् कपीश्वरः जलाशयान् मणिनिव तोयन् वृक्षान् तक्वफले नम्रान् मधुद्रोण मद, समन्वितान् गृहान्तर्वगुणोपेतान् मणिवस्त्रादि पूरितान् दिव्यभक्ष्यान्न सहितान् मानुषैः परिवर्जितान् विस्मिता तत्र दिव्ये कनकविष्टरे प्रभया दीप्यमानां तु ददृशु श्रियम्बेककाम् ध्यायन्तीं चीरवसनाम् योगिनीं योगमाश्रितां प्रणयभूस्तां महाभागां भक्त्या भीत्या च वानरः दृष्ट्वा तान् वानरां देवि प्राह यूयं किमागतः कुतो वा कस्य दूता वा मत्स्थानं किं प्रदर्शय तच्छ्रुत्वा हनुमानाः शृणो वक्ष्यामि देवि अयोध्याधिपति श्रीमाम् राजा दशरथ प्रभु तस्य पुत्रो महाभागो ज्येष्ठो राम इति श्रुतः पितुराज्ञां पुरस्कृत्य स भार्य गतस्तत्र हृषा भार्या तस्य साध्वी दुरात्मना रावणेन ततो राम सुग्रीवम् सानुजो यो सुग्रीवो मित्रभावेन रामस्य प्रियवल्लभाम् मृगयध्वम् इति प्राहे ततो वयमुपागतः ततो वनम् विचिन्वन्तु जानकी जलकाङ्क्षिणः प्रविष्टा गौवरम् घोरम् दैवादत्र समागतः त्वं वाम् किमर्थमत्रासीत् का वा त्वम् वदन योगिनी च तथा दृष्ट्वा वानरान्त्राः ऋष्टधि यथेष्टं फलमूलानि जग्ध्वा पीताम् पीत्वा मृतम् पय आगच्छ सततो वक्ष्ये मम वृत्तान्तमादितः तथेति भुक्त्वा पीत्वा च वृष्टासे सर्ववानरः देव्या समेपम् गत्वा ते बद्धाञ्जलिपुटास्थितः योगिनी दिव्यदर्शना हेमा नाम पुरा दिव्यरूपिणी विश्वकर्मणः पुत्री महेशम् नृत्येन तोषयामास भामिनी तुष्टो महेश प्रददो, इदं दिव्य पुरम् अत्रसितासा स्थिता सा सुदती वर्षाणामयुतायुतं तस्याहं सखि विष्णु तत्परा मोक्षकाङ्क्षिणी नान्ना स्वयं प्रभा गन्धर्वतनया पुरा गच्छन्ती ब्रह्मलोकम् सा मामाहेदम् तपश्चरे अत्रैव निवसन्ति त्वम् सर्वप्राणिः विवर्जिते त्रेतायुगे दाशरथि भूत्वा नारायणो व्ययः भूभार हरणाय विचलीषति कानने मार्गन्तो वानरास्तस्य भार्या ते गुहाम् पूजयित्वा सथान्नत्वा रामं स्तुत्वा प्रयत्नतः यातासे भवनं विष्णो योगि गम्यं सनातनम् इतोऽहं गन्तुमिच्छामि रामम् द्रष्टुं तरान्विता योयम् पि दग्ध्वक्षिणी गमिष्यथ बहिर्गुहां तथैव चक्रुते वेगात् गता पूर्वः सापि त्यक्त्वा भुवां शीघ्रम् ययोराघव तन्निधिम् तत्र रामम् स सुग्रीवम् लक्ष्मणम् च ददर्शः कृत्वा प्रदक्षिणम् रामम् प्रणम्य बहुश सुधी अह गद्गदया वाचा रोमाञ्चिततनूरुहा दासी तवाहम् राजेन्द्र दर्शनार्थम् इहागता बहुवर्ष सहस्राणि तत्त मे दुश्चरम तप गुहा दर्शनाथं ते फल मेज तत्पिता मया या परूतेषु चा लक्ष्यम बैरवस्थित योग मै चन्दो मनुष विग्रह न लक्ष्यसे ज्ञान गृह शैलूष शै महाभागवतानां तम् भक्तियोग विधित्वया अवतीर्णोऽसि भगवन् कथम् जानामि तामसि लोके जानातु यः कश्चित् तव तत्त्वम् रघुत्तम मम एतदेव रूपम् ते सदाभातु हृदालये रामा पादयुगलम् दर्शितम् मोक्षदर्शनम् अदर्शनम् भवानाम् तन्मार्ग परिदर्शनम् धनपुत्रः कलत्रादि विभूति परिदर्पितः किञ्चन धनं बाद्य नाभिधातुम् जनोऽहति निवृत्त गुणमार्गाय निष्किञ्चन धनायते न म स्वात्मा विरामाय निर्गुणाय गुणात्मरे कालरूपिणमीशानम् समं चरन्तं सर्वत्र मन्ये त्वां पुरुषं परं देवते चेत् न वेद नुविडम्बनं न चेत् कश्चिदैतो वेष्या वा पर एव च सन्मायापितात्मान सम्पश्यन्ति तथाविधम् अजस्या कर्तुरीशस्य देवतिर्यङ्नरादिषु जन्मकर्मादिकं यद्यत् तत् अत्यन्त विलम्मनं ताहु अक्षरं जातं कथाश्रवर्णसिद्धये केचित् कोसलराजस्य तपस फलसिद्धये कौसल्यया प्रार्थ्यमानं दातमाहु परे जनः दुष्टराक्षस भूभार हरणायाथितो विभु ब्रह्मणः नररूपेण जातोऽयमिति केचन शृण्वन्ति गायन्ति च ये कथात्वे रघुनन्दन पश्यन्ति तव पादाब्जम् भवान् वसुतारणम् सन्माय गुणबद्धाहम् व्यतिरिक्तम् गुणाश्रयम् एवं स्तु रघुश्रेष्ठ प्रसन्न प्रणताघद्भृत् उवाच योगिनीम् भक्ताम् किं ते मनसि काङ्क्षितम् सा प्राह राघवम् भक्त्या भक्तिम् ते भक्तवत्सल यत्र कुत्रापि द्राताय निश्चलाम् देहि मे प्रभो तद्भक्तेषु सदा सङ्गो भूयान्मे प्राकृतेषु न जिह्वा मे राम रामेति भक्त्या वदतु सर्वदा मानसम् श्यामलम् रूपम् सीता लक्ष्मण संयुतम् धनुर्बाण धरम् पीत अङ्गदैर् उपरैर्मुक्ता हारिकौस्भुण्डलैः भान्तं स्मरतु मे राम वरं नान्यं गृणे प्रभो श्रीराम उवाच भवत्वेवं महाभागे गच्छ तं तत्रैव मां स्मरन्ति तं त्यक्वेदम्भूतपञ्चकम् माम् एव परमात्मानम् अचिरात् प्रतिपद्यते रघोत्तमवचो मृतसारिकल्पम् गत्वा तदैव बदरी तरुषण्डजुष्टम् तीर्थं तदारुगुपतिं मनसा स्मरन्ति त्यक्त्वा कलेवर्मवापरं पदं सा इत्यार्थे श्रीमदध्यात्मरामायणे उमामेश्वरसंवारे किष्किन्दाकाण्डे षष्ठदर्गः